उग्रसेनं च वृष्णींश्च महाबलसमन्वितः स तत्र विप्रकुरुते जरासन्धः प्रतापवान् एतद्वैरम् कौरवेय जरासन्धस्य माधवे आशासितार्थे राजेन्द्रसंरुरोध विनिर्जितान् पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान् देवश्रेष्ठं महादेवं कृत्तिवासं त्रियंबकं एतत्सर्वं यथा वृत्तं कथितं भरतर्षभा यथा तु सहतो राजा भीमसेन तच्छृणु इति श्रीमहाभारते सभापर्वणि जरासन्धमधपर्वणि जरासन्धयुद्धोद्योगे द्वाविंशोऽध्यायः